म्बतिर दशकं ब्रह्मा श्री ब्रह्माकष्ण परीक्षारिकरे ब्रह्मा परेक्षितुमनः स परोक्ष माम निन्ये धत्स ककणान् प्रविदत्य त्वं सा मे भुक्तकबलं गदवां सदाने भुक्तं स्थिरोधितं सरोजभवकुमारान् वत्सायिधस्तदन कोपकणायिधस्त्वं शिक्यादिपाण्डमुरळि गवयाधिरूपकं प्राग्कृत्य रूपकल शिराय सायं त्वं माययाथ भगुता व्रज माययात स्वमेव चिक्य कवलादिमयं तदानकरं को यस्वमेव पशुवत् सखपालरोपकं कोरोपिणे पिरभि गोपवदो मये मिहे आसादितोऽसि जनने पिरदिं प्रघर्षात् जीवं च कञ्चिदभिमान बसा स्वकीयं मत्वां धनुजयदि राघपरं वकम् आत्मानमेव भवन्तमवाभ्यसोनो प्रीतिं ययुन्न कियते वनिता च गाभक एवं प्रदक्षण विसृविद कर्षारनिशेष कोपकणलालित भूरिमूर्तिं त्वामप्रजोभि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरभिमहान् वत्सपूलो oh, ने दृष्ट्वा विवेकमशृणे दृगणेभिमूढे प्रादेन्द्र प्रदिनवान् मकुटां कदादि भोषां चोद भुजयोजः भो सचलाम्बुतापान् प्रत्येकमेव कमला परिलालिताङ्गान् भोगेन्द्रभोगशयनान् नयनाभिरामान् लीलानि मेलिददृश सनकाधियोगि व्यासे भिता कमलभोर्भवदो ददर्श नारायणकृतिमसंख्यतमं निरीक्षं सर्वत्र सेवकमपि समवेक्ष दा मायानिमग्नकृतयो मि मुमो गया वदे को तदा कपालार्थपाणिके न शम्मते तदनु विश्वपदिं मुघो स्वाहं नत्वा च नूतपदि तादरितामया ते पोतैः समं प्रमुदितैः प्रविशन्निकेता वातालयादिभवि भो परिपायै रोकाद सर्वत्र गोविन्द नाम गोविंद गोविन्द अंति मूना दशकं कन्नन् गोकले रक्षिपदी जगदम्बे उपेत्यपौखण्डवयो मनोज्ञम् उपेक्षवत्सावनमुत्सवेन प्रावर्ततां गोगणपालनायाम् उपक्रमस्यानुगुणैव सेयं मरुत्पुरा देश तव प्रवृत्ति गोत्रा परित्राण कृते भतिर्नक तथे भदे वनान्ते वनश्री यं वेक्षरं सुखेन शीतामनाम्नश्व वाचा मोदादका धेनुककाननं त्वम् उत्थालताले निभके त्वदुख्या फलेन दोते दलेन दोप्यां मृदुकरचाप्यवदत् पुरस्ताद फलोत्करो धेनुकदानवोऽप्य समुद्यतो दैनुकबालनेकं कथं भदं दैनुकमध्यकुर्मे मुवमग्रजेन सुरौभ्रयोद्धारमजिघनस्त्वं तथेयभृत्यान् अभिजम्बुगत्योपागतान् अग्रजसंहुदस्त्व जम्बूफला निता निरास्तक तालेशुकेलन् भगवन्निरोस्तक नदे त्वयि यद् जम्बु गौ गां स नामगत्वात् वरुणस्तदानी भयाकुलो जम्बुकनामदेया श्रुति प्रसीतं मन्ये सबावतारस्य फलं मुरारे सञ्जातमत्येधिसुरैनुदस्त्वं सत्यं फलं जातमिहेधि हासे बालैः समं तालफलां न्यभुङ्क्ताः मदुद्रवशन्ति बृगन्दितानि फलानि मेदोपरबृन्दे भुक्त्वा तृप्तैश्च तृप्ते बवनं पलौका बहत् पिराका कलबालकै स्वां हतोखतो वेणुकयेत्युपेत्य फलान्यदत्त मधुरानि लोकैः जयेदि जीवेतिनुतो मरोत्परदेशरपाहि लोकाते सर्वत्र गोविन्द नाम संकीर्तनं गोविन्द अम्बि न दशकं कालीय मर्दन विपरं नामपूर्मो कालिज्ञ द्वादश तपस्य मीनव्राते शेखवान् भोगलोले दाक्षं साक्षात् ऐच्छदक्रे कदाचित् त्वं ता सक्षुतं द्रक्षसोनं मीनं कञ्चित् दक्षतं लक्षयन्सि सख तप्तचित्ते सप्तमो न चेत्त्वं जन्ध्वोक्ता जीवितं चापि मोक्ता तस्मिन् काले कालीयगक्ष्वदभात् सर्परातेके कल्पितं भागमस्न तेन क्रोधात् तत्पदां भोजभाजा पक्षक्षिप्तः तत्तुरा पम्पयोगात् कोरे तस्मिन् सूरजा निरवासे तीरे वृक्षाका विक्षदा कक्षे लवेखात् पक्षे भ्राता का पे दुरभ्रे पदन्तकः कारुण्याता त्वन्मनस्तेन जाता काले तस्मिन् एकदा सिरपाणिं मुक्ताय ते यूनं काननान्त तयोद्धाम ग्रीष्मभीष्मोष्म दप्ता का गो गोपालाका व्यापि पङ्क्षेलतो य न स्यञ्जीवान् विचुदाण्ष्मतले तान् विश्वान् पश्यन् अच्युदत्तं दयात्र प्राप्योपन्तो जीवयामासीत् अत्राक् पेयो शम्भो वर्षबे, श्रीकटक्ष् किं किं जातो हर्षवर्षातिरेकः सर्वं दृष्ट्वा क्रेत्वां त्वत्कृदं तत्मिदन्तग त्वामालिङ्गन् दृष्टनानाप्रभावा कावच्च लब्धजीवा कक्षणेन स्फेतानन्दाकाः त्वां च दृष्ट्वा पुरस्तादे प्रागा बृत्सन्वतो हर्षपार्ष्पो या Om Chandyo manda modyanena ta ka Ramanchaya sarvato naschire भूयस्यन्तकः काचिदानन्दमोर्च्छ आचर्यो या श्वेलबे को मुकुन्ते ते उक्तो कोपैःखि नन्दितो वन्दितो मोको एवं भक्तान् मुक्तजीवानभित्व मुक्तपाङ्गैखे हस्तरो कांस्तनोषि दातृक् सर्वत्र गोविन्दा, गोविन्दा. <coughs> इनी इनि अशकं कृष्णन्ली तद्कर अनमारं नृप परिको निघोरतरङ्कणे भुवनत्रय पारभृतो भवतो गुरुपारविकम्बि बि जला परिमज्जयति स्नतनुश्चतकं थिनि स्फुटघोषभते अदधि क्षभेद क्षपरि क्षभेद भ्रमेदो दरव ऋनिनादपरै उदका दुतका दुरकाधिपदे सदुपान् तमसा तरु शान्तमनोक पणशङ्खसघ्रविनेश्रुमर जलदग्नि गणोग्रविशाम्बुतरो पुरदपणिनं समलोकयत भगुशृङ्गिणम च नैलमिव जलदक्षि परिक्षरदो ग्रविश स्वसनोष्म पर समक अभिलोक्य भवन्त समुदेशगता यमुना पशुपाखा अखिलेश विभो भव यदशा अवलोक्य जिघा सुषुजे परो पाणि भो विमोच जवा उदकं यदका सशुषा भवता अदेरो केतद पनीरो जपणा नन्दते भवता वदपादरुचा कलसिंचितनो पुरमय जोमेल करकङ्कण संकोला संक्वाणीतो जगरषपसुपास्तुतो शर्मोनियो वब्रषकुसुमा निसोरेन्द्रकण ख तयेन्द्र ज्योतिमो रुदके हिगोपते परिपाघी समा तमादांतगतो त चिर गं बेद कुण्टल मण्डल के सुचिरमे च नेत यदि गायदि न मि यज्ञा धमोक्ष परि विगा यद तैणद मनता परि मतन पद पङ्करु काचिरो व्यकरता करताल मनोगर त्वदव भक्न बे भक्नपणा कणे कलि द चोणि तोणि तादसे पणे पदा अयि पुरैव चिराय परे श्रुत त्वदनुभाव विलीन कृदौ हिता का मुनिभिराभ्य नवाभ्य पदैस्तवैषे नुनु भवन्तमयन्द्रिता पणिवधू जन भक्ति विलोहक प्रभी कसं करुणा कुलचे दशा पणिपदी बा चोदीतक त्व मोतिरमन मद रमण क्रज भारति मध्यक पणिरि पूर्णरो विरोदिता दिधिवचनान्य पाणिपद्र नेरका दोराकै समो पणि बाधना दे प्रजा ज्वालिता करो दो लभे पोषिताका थाडके प्रमाद सोभे मेष्टितो निस्तासा प्रजा प्रजे तु मय भजनोत्कार सोबे दरणश ये तव कृष्णरन्त समन्त प्रभोति तानत पालय पालये कलुते ते उदयता तरवा पशु पालको ने आविदुमाशु प शिखिनी बर्णतये पगि अशकं कण्णन् रामसग्विदिने कमद भगवल् गथो भवाङ्गीबिनो सोनु बिरबि गोपाना तेनु बिरभिमृतां लसते शन्दर्शयं बलय स्वैरौं वृन्दावनश्रियं विमला केरै सगबालै गे पाण्डेरगमागमं बडं क्रीडन् तावत् तावकनिधनस्पृयालोर् कोपमोत्तिरदयालुको दयच प्रलम्बनामा प्रलम्बभुं भवन्तमापेदे जानन् अभ्यभिजानन्निव तेन समं निभत्त सौहार्दकम् पडनिकटे पडुपशुपव्याबद्धं द्वन्द्वयोद्धं आरब्धा कोपान् विपज्य दन् वन्ने संघो बलभद्रकं भवत्कमी त्वद्बलभीतं दैत्यो त्वद्बलगदमन्वमन्यत भगवन् कल्पितविजेतृवहनें समरें परयोदकं स्वदयिततरो श्वेतामानमदत्ताख पराजितो भक्तदासतां प्रदयन् एवं बहुषु विभोमल् बालेषु भगत्स्व वाच्यमानेषो रामविजितप्रलम्बो जगार्तं दूरतो भवद्भीत्या तम दूरं गमयन्तं तं दृष्ट्वा हलिनिबिगिधरिमवरे दैक्यस्वरूपमाकात् यत्रो बा सहि बलो विचकितो भूत् उच्छदया दैक्यतनोखो त्वन्मुखमालोक्यदोरथो रामके विगधभयो दृढमुष्ट्या पृषदोष्टम् सभदिबिष्टवानेनो हत्वा दानबवेरा प्राप्तं बलमालिलिङ्कितप्रेम्णा तावन्मिलदोर् युवयोः शिरसि कृदा पुष्पवृष्टिरमरगणैः आलम्बुवनानां प्रालम्बं निधनमेव मारचयन् हरे हरे क्लेशान् सर्वत्र गोविन्द नाम सङ्गीर्तनं गोविन्द गोविन्द <tinyan> अम्बति अटकम् पशुकल् कोरेकाडुसल्वयिबिकरणलोले बालजाले प्रलम्ब प्रमदनसविलम्बे तेन वैरचाराः तृणकुदगनिमिष्टाः तोरदूरं चरन्त्यग किमपि विपि न शी काक्यमेषां बभो बो अनधिगदनिदाग क्रौर्यबृन्ता वनान्ता ते बहिरिदमुपयाता का काननं धेनवस्ताका तव बिरगमिषण्णाकाम् उष्मलग्रीष्मताब प्रसरमिसरदम्बस्याकुलस्तम्भमापु गो तदनु सगसखायैके दोरमन्विष्य चोरें गलिदसरणि मुञ्जरण्य संजाके तु पशुकुलम् क्षिभ्रमाणे तु गदबधि सर्वदोपे जजरुम्बे सकल करि दि दिफे घोर पङ्घर भीमे शिकिनि बिगिदमार्धा का अर्धदग्ध इवर्दाक अखकपवनभन्तं पागि पागीति सर्वे चरणमुभगदास्त्वां ताभकर्तरमेको अलमलमदिमेक्यां सर्वतो मेलयध्वो दृशमिदि तव वाचा मेलि दाक्षेषु ते ेषो को दवदहनोसो कुत्र मुञ्चाटमीसा सबदि बवृतिरे जय जय तव मायां केयमीशेति तेषां नोदितः सो भदनानाभिलासत पुनरभिन्ते प्राचरपाटलादे प्रसवनि गरमात्र राज्यघर्मानुबापे त्वयि विमुखमिवै तापभारं भगन्तं तव भद्र न वदन्त पङ्कमोच्चोषयन्तो तव भुज वद तञ्चत् पूरि धेयप्रभाकौ तव समयमनेशेखे य मुनेशो स्थलेषु तदनु जलद जलैके त्वभोस्थुल्यभाविके विगसतमलविद्युतो पीतवासोऽसैके सकलभुवन जां हर्षदा वर्षवेळां क्षिधितर गुकरेषो शैरवासि व्यनेशे गुकरतलनिवेष्टं गरिष्ठं गिरेन्द्र शिखकुल नवके का के स्तोत्रकारि स्फुटकुट जगदम्ब स्तोम पुष्पाञ्जलिं च प्रविधनु देवगोवर्धनोऽसौ अदशरदमुपेतां तां भवद्भक्तचेतो विमल सलिलपूराम् मानयङ्गानेषो तृणममलवदन्ते चारु सञ्चारयङ्गाका पवनपुरपते तो देहि मे देहसौख्यो सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द म्पत् दशकं कण्णने कु गोपल्लं मोहिक त्वद्भोन्नव कलौ यको मल्लमा प्रेमदोकनमशेषपर चिन्मोदात्मक वीक्ष्यमो कुरण् तमानसक्रमा ते त्वत्मिलोकन रदास्तदस्तदख गोपीकास्तवनसे हिरे करे काननोपगतिमभ्यकन्मुखे निर्गते भवदे दत्तद्रष्टयख त्वद्गते वेणुनादमुपकण्यदोरथः त्वत्मिलासकथयारे काननां तमिदवान् भवान पे श्रपादपदले मनोरमे व्यक्तया कलिदपादमास्तिदक प्रत्यपूरयद वेणुदालिकां मारबाणधुतकेशने कुला निर्मिकार पशुपक्षिमण्डलो रावणं चतुर् प्रभा तावकं व्यजनि वेणुकूजितां वेणुरन्ध्रतरळां गुणे तलां तालसञ्चलित पादपल्लव तस्थिदं तव परोक्षमभ्यः संविचिन्त्य मम प्रजाङ्गनौ निर्विशङ्गभवत् अङ्गदर्शिनीके केचरीकमृकान् पशूनपे त्वत्पदप्रणे कननं च ताखा धन्य धन्य मिदि न्दमानयन् आपि पेयमदरामृतं गता वेणुभुक्तरसशेष मे गता दूरतोपदकृदं दुराशयेते आकुलमुकुरिमा समामुकुण् प्रत्यगं च पुनरित्तमङ्गनाखा चित्तयो निज निदाधनुग्रहौते भग्धरागविवसा स्वयं प्रभो नित्यमापुरिगकृत्यमूढतां रागस्था यते हि स्वभावाते मोक्षोपायो यज्ञदस्या न वा स्यात् दासात्मेको तत्मयं लप्तमासे वाक्यं वाक्यं पाहि मां मारुदेश सर्वत्र गोविन्द नाम संकीर्तनं गोविन्द गोविन्द अरवम् दशकं गोप पार्वती देवयै पूजिपदुः मदनाधुर चय दशक भवदङ्क्रीतय दास्यकां यया यमुना तडसिं निसैखतें तरलाक्षो गिरिकां समाचिसंल तव नामगता रदा सम सुदृशप्रादरपाकदानदे उपकार सदैरपोजय दयितो नन्द सुतो भेतिते यदि मा समुबाकितां रदाकार तरलाक्षीरभि भवान् करुणामृदुलो नटा समया सी द्रहेचया नियमा वसिदौ निजाम्बरा तडसिवचास्तता यमुना जलकेलना कुल का पुरदस्वाम् अवलोक्य लिता का कृभयानमेदानस्वतो वनिता स्वाम्बरजालमन्तिके निगेदाम्बर डपं त्वं तरसाधिरोढवान् हि गता वधुपेजनीयतां वसनं वसदृशो यथा यता हिदि न मृदस्मिदे त्वये बृभदिं व्यामुखे वधू जनैके अयि जीवचिरं किशोरनस्तवता शिरभसे करोषि किं प्रदिशाम्बरमम्बोजक्षणेखे उदितस्त्वं स्मितमे वदत्तवा अधिरोग्यतटं कृताञ्जलिखे परिशुद्धा स्वकते निरीक्षता का वसनान किल ननुग्रहा पुनरेवं किरमव्यतामुता विदितं नन वो मनीषिता वदिता रस्मिकयोग्यमुत्तरा यमुना पुलिने सचन्द्रिका क्षणदायिक्यबलास्तमोचिवान् उपकर्ण्य गच्छता मधुनिष्यन्ति वचो मृगे धृषक प्रणयादय वेक्ष वेक्षते वदनाब्जं शनके गृहं गता का इति न वनगृह्य वल्लवीः विपिनां देशपुरे वसञ्चरन् करुणा शिशिरो हरे कर हर, त्वरया मया बले गोविन्दा, गोविन्दा। दशकं अन्तण अनुग्रहीक व्रुम्बुदल् तदश्च वृन्दावनतोऽधितो गदस्व कलकोपगोकुलैः हृदन्तरे भक्तधर त्रिजाङ्गना कदम्बकानुग्रगता ग्रहं वगल् नदो निर्षाशरणे वनान्तरे किशोरलोकाुदितं दृशाकुलम् अधूरतो यज्ञपरान् त्यजान्प्रदे व्यसर्जयो याचनायतान्न करेष्वतो तेष्वभिधायते भितां कुमारकेशोदनयाचेष् प्रपो श्रुति स्थिरा अभ्यभिं न किञ्चिदो चोश्चमगे सुरोत्तमाका अनाधरात् किन्नधियोगे बालकाखा समाययोक्तमिदं किज्वस चिरादभक्ता खलु ते महे सुराका कथं के भक्ता त्वय ते समर्प्यते गृहिणी जनय करुणाकुलिमाका इति स्मिदाध्र भवते गताका ते तारका हारजनं यया शिरे गृहे तनाम्ने त्वहि सम्भ्रमा कुलाकार भोज्य रसंप्रकृत्यदाका चिरं दृदत्वप्रविलोकनाग्रका स्वकैन्यरुद्धा अभितो न मायका लोलपिञ्च शिकुरे कपोलयोको समुल्लस कोण्डलमाध्रमेक्षिते निदाय बाक सुकृदं सीमने सितं भवन्त समलोकयन्तताका तदा च काचित् त्वदुपागमुद्यत कृता तैदेन यज्वना तदैव सञ्चिन्त्य भवन्तमञ्चसा विवेश कैवल्यमख ृतन्यसो आधाय भोज्यान् अनुकृत्यथा पुनः त्वदङ्गशङ्कस्पृगयो जतिङ विलोक्ययज्ञाय विसर्जयन्निमाका चकर्त्रभर्त्रोन् अभिधास्वकर्कणान् निरूप्य दोषं निजमङ्गना जने विलोक्य भक्तिं च पुनर्विचारिभिखे प्रभुत्तमभिष्टुतो त्रिजैके सर्वत्र गोविंदा, गोविंदा अव दशकं इन्द्र मत नोपार निरीक्ष त्वं शौर्ये मघवमदमोध्वंसिदुमनाख निजानभ्येतान् विनयमृदुनन्तादिपशुपान् अभ्रच को वायं जनक भवतामोद्यमयिते पपाषे नन्दस्त्वां सुदननुविधेयो मघवतः मको वर्षे वर्षे सुखयदि स वर्षेण प्रथिभीं नृणां वर्षा यत्थो निखिलमुभजीव्यो महितले तस्मा विशेषातस्माकं तृणसलिलजीवाहि बसवक विदेश्रत्वा वाचो पितुरये भवानां सरसौ तिजे तन्नो सत्यो मघवमनितारिष्टिदीयते अदृष्टं जीवानां सृजति कलो वृष्टिं समुचितां महारण्ये वृक्षाका किमिव बलिमित्राय ददते इदं ताभः सत्यं यदि ददा चे बलिरचलभर्त्रे समुचितग सुरेभ्योऽभ्युत्कृष्टाखां ननु धरणि देवा कक्षिदितले तदस्तेऽप्याराध्याका यदि जगदि तत्त्वा निजनान् भवत्मा चं श्रुत्वा भगवदयुधास्तेऽपि पशुपाका विजेन्द्रनाच्छन्दो बलिमदुरो व्यधोप्रादक्षिण्या शुभ्रशमनमल्ला तरयुता का त्वमादशैलात्मा बलिमखिलमा वीरपुरदक अवोचच्चैवं तान् किमि गत तं मे निगदितो सबलिमुबभुङ्क्ते स्वबपुषा अयं गोत्रो गोत्रिषि च कुपिते रक्षितुमलो समस्तानित्युक्ता का जगृषुरखिला गोकुलजुषत् परे प्रेतायाता का खलु भवतु प्रेता प्रजजुषो प्रजं यन् भवन्त जानन्नप्यदि गदच स क्रान्दहृदयक न सेकेते तदुपरिचितात्मान्नदीरभि मनुष्यत्वं जातो मधुपितपेयं देवेष्व विनयो विधत्ते चेन्नष्ट त्रिदश सदसां कोऽपि महिमा तदश्च ध्वंशिष्ये पशुभगदकस्य श्रियमिति प्रवृद्धस्त्वं जेतो सकिलमघवा दुर्मदनिदे स्वधा प्रलयजलदानम्बरभुवे बिभ्राणकः कुलिसमयमभ्रे भगमनगः प्रदस्तेन्यैः अन्धगनमरुदात्ते विगसितो भव माया नैव त्रिभुवनपते मोगयधिको सुरेन्द्रकृत शैल अनातां शैलकृपयापि अनातङ्कोऽस्माको नियदये दे दे देवेष्वास्य पशुपान् अहो किं नायातो गिरिबिदिषा चिन्त्यनिवसन् मरुत्के कतिश सर्वत्र गोविंदा, गोविंदा अूना दशकं कृष्णन् मेघके कापद दतृषिरे किल दक्षणमाक्षत स्वनिधुं वेदकां वेद दे, दे तटाका सुषमया भवदकतुला गता का प्रजपदोह भरे पारि धरा विपुलकरकमिश्रैः तोय दारां निपोते हे दिशि दिशि पशुपानां मण्डले दण्ड्यमाने कोपि दर् कृतान्नक पाहिपाहीति तेषां वचनमजितशृवण मा बिभे दैत्यभाणी गे कुलैककलगोत्रो दैवदं गोत्रचत्रोः विहिदमिघ सर्वज्ञात् को न संशयोऽस्मिन् इति सगसि देव गोवर्धनात्रिम् करिदमुदमुलो मूलतो बाल्यतोभ्यां तदनुगिरिवरस्य प्रोधृतस्यास्य तोबे सिगदिलमृदुदेशे दूरतो वारितापे परिकर परिमिश्रं धेनुगोपानदस्तात् उपनिददत्ता का के, भी भी के को हस्तबे नो एको यदि पशु पला आदिमाकगिरि शतो वा मके करो सरोगितां थारिमिता अद्भुता माद्रे बलं नीते कदाबलो के पिरा कदे कोपाकैके हा कदा दामा मो शोरी तसा बाबायतेे साये गणो दिवासा सप्त कमो क्रम वर्षयते अचल देतो पदा कालिदासार भगनोद्े अभकृते मरुता मरुताम्बदिके तदपि शङ्के धते समपात्र मदे समपे योषे वर्ष परे तता पशुभदे कोले च विनिल् गते ओवि समपाो तरक प्रमोदितैः पशुभैः परिरेभिषे धरणिमेव पुरा धृतवान् असे क्षिरितरोद्धरणे इदिनुदस्त्रदशै इति नोदस्रदशैकमलापते पुरपुरालय पालय मां गतात् सर्वत्र गोविन्दनामसङ्गकीर्तनं गोविन्द गोविन्द <coughs> अव दशकं श्री भगवत् शैलो तरणं प्रभाेश्वरं जात कर्कोऽधिको निर्गदितो निजाय वर्घाय तातेन तव प्रभावक पूर्वाधिकस्त्वद्बहुमानभारक ततोपमानोति ध तत्वबोधक सगतिं सुरा सुरादिराजत्सगतिं व्यगम्या उपेचतुष्टगन्वकः स्पृष्टा पदाब्जं मणिमौलिना ते श्रेकस्नुदय स्वां सुरपि पयोभिः गोविन्द नामाङ्गितमभ्यषिञ्चते हैरावदोपाकृतम् दिव्यगङ्गापातोऽपि रन्द्रोऽपि च जादकर्षक जगत्त्रयशेयं त्वयिकोकुलेशे तदाभिषिक्ते सदि गोपवाटक न केऽपि वैकुण्ठपदेऽप्यलव्याः श्रियं प्रपेते भवदप्रभावात् यमनं प्रपाते श्रयन् पिता वारुणमोरुषेण निधस्तमाने पुं त्वां ताम्बारुणे कारणमध्यरूपक स तेन जलधिपेन प्रबोधित स्व प्रतिगृह्य दता उपादस्तत्क्षणमात्मके को पिधारितं निजेप्यक हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनभत्तदृष्णान् निरीशविष्णो परमं पदं तत् तुरापमन्यैस्वीन्द्रस्तान् स्फुरत्परानन्दरस प्रभाकप्रपूर्ण कैवल्यमहाभयोतो चिरं निमग्ना कलुकोपसंघका त्वयैव भूमल् पुनरुद्धृतास्ते करपदरव देवं देव पुत्रवतारे परपदमनवाप्यो दर्शितं भक्तिभाजां तदिगपशुभरूपे त्वं यि साक्षात् परात्मा पवनपुरनिवासिल पाहि सर्वत्र गोविन्द नाम गोविंदा, गोविन्द